ष्टप्रत्यष्टादयत्याह रक्षसा महत्यै अग्नेर्मस्ते ज्येण तेजसा निष्ठपामेत्याहमेध्यत्वायः सम्मार्थे श्रुमग्रेंसमेवाभ्यस्त गच्छति वितत्वाय अथ जुहो अथोपभृतम् अथ भ्रुवान् असौ मेजुहोः अन्तरिक्षमुपभृत् पृथिवे ध्रुवा इमे वै लोका श्रुतः दृष्टिः सम्मार्जनानि दृष्टिर्वा इमाल्लोकान् पूर्वम् कल्पयति तेतरक्लुप्ताः समेधन्ते समेधन्तेऽस्मा इमे लोकाः प्रजया पृथिभिः यदेवम् वेदामय लवर्षकः पर्जन्यः स्यादिने अकृतः संवृद्ध्या वृष्टिमेव नियच्छति अवाचीनाग्राहि वृष्टिः यदि कामयतावरुषस्याग्रे मौलतः संवृद्ध्यात् वृष्टिमेवाग्यच्छति तद्वाहुः अग्रत एव वरिष्टात् संवृद्ध्यात् मौलताधस्तात् तदनुपूर्वम् कल्पते वर्षगाभवदेते प्राचीमभ्याकारम् अग्रे अन्तरतः एवमिवह्यन्न अथो अग्राद्वाोढधे नामोर्जम् प्रजा उपजीवन्ते ओर्ज एवान्नाद्यस्यावृद्ये अधस्तात् प्रते दण्डमुक्तमतः मूलेन मूलम् प्रतिष्ठित्य तस्तारत्नौ प्राञ्चिपरिष्टालोमाने रत्यञ्चधस्तात् सुघेयः प्राणो वे स्तुवः जुहोदक्षिणोहस्तः आत्माध्रुवा अन्नकुम् सम्मार्जनानि मुखतो वे प्राणापानो भूत्वा आत्मानमन्नम् प्रविश्य बाह्यतस्तनुवकुम् शुभयते तस्मामेव ग्रेथम् माशे मुखतो हि प्राणोपानो भूत्वा आत्मानमन्नमाविशते नौ प्राणापाणौ अव्यभुकप्राणापानाभ्याम् भवति यगेवम् वेदा दिवः शिल्पमवदम् पृथिव्याः ककुभिश्रितम् तेन वयम् सहस्रपलिशेन सपत्रम् नाशयाम यस्मा हेतुस्वक्सम्मार्जनान्यज्ञाग्रहाये आपोदर्थाः रूपमेवैषा वेदन्महिमानम् व्याजष्टे अनुष्टुभच्च आनुष्टुभः प्रजापतिः राजापत्यो वेदः हेतस्याग्रग्रस्वक्संमार्जनानि नैवेनानिच्छन्दसा देवतया समर्थयति अथोग्भावयोषाः गर्भवृषाः अन्यसम् यज्ञे करोति प्रजननाय प्रजया वशुभिर्यजमानः केवैवापाः सन्ति तत्तथा न कार्यम् आरब्धस्य यज्ञस्य कर्मणः समितोहः न तत्प्यक्कम् अभ्यर्मा चेत्करेण्यस्यत्राहुतेभ्यः सन्तिष्ठते उत्करो वा तस्य प्रतिष्ठा एतावम् तस्मै प्रतिष्ठाम् देवाः समहरन् यदभ्यर्माद्रियते तेन शान्तम् यदुत्करेण्यस्य अथो स्तम्भश्च वा एतद्रूपम् यत्सृक्सम्मार्जनानि स्तम्बसो वावोढधयः प्राधाञ्जलत्रक्षे वशवो नरवन्दे अप्रियाख्येताञ्जलक्षः यावदप्रियो भवदे पशूनाम् तावदप्रियपशूनाम् भवति यस्यैतान्यत्राज्ञेर्दधते नवदाव्याधभावोढधे वशवोनवन्दे नवदामोऽषाम् प्रियः यावत्प्रियो भवे नवदामः पशूनाम् तावत्प्रियः पशूनाम् भवति यस्यैतान्यज्ञो प्रहरन्ति तस्मादेतान्यज्ञामेव प्रहरेत् यतरस्मिन् संवज्जात् पशूनाम् धृत्यये युवभूतानामधिपतेः तद्रस्तन्ति चमावृषाः पशूनस्माकम् वाहि पुंसेः वाहेत प्रहरदेजा प्रतिष्ठा स्वामे स्वाम्ठा गमयेष प्रजयान अयज्ञ वाए योग पत्नी प्रजा प्रजा पत्नी कह प्रजानाम् प्रजननाय यत्तिष्ठन्ते सन्नह्येत व्याम् ज्ञातिकम् बन्ध्या आधीना सन्नह्यते आधीनाश्येता वेद्यम् करोति यत्पश्चात्प्राच्यन्वासीत अनया समदन्तशीत हेवानाम् भक्नया समदन्तशीत एषाः तक्षणदौ दे चन्वाहास्ते आत्मनोधाय आशासा नासौ मनसमित्याह नेध्यामेवैनाम् केवलीम् कृत्वा आशिषा समर्थयति अज्ञेवम् हृता भूत्वादन्येषु कृतायजमित्याह एतद्वैपत्रे वृतो वनयनम् तेनैवैनाहम् वृतम् भणयति तस्मादाहुः यश्चैवम् यमन्वास्ते तस्यामुष्मिल्लादेह वदेक्त्रेण यद्योक्त्रम् स योगः यथास्ते सक्षेमः योगक्षेमस्य कृत्यै युक्तम् क्रियाता आशेः का वेज्याता इति आशिषः समर्थ्ये ग्रन्थिम् ग्रन्थादि आशिषेवास्याम् परिगृह्णादि पुमारे मिथनमेवा प्रजन प्रजननाय प्रजा प्रजयान अथो अर्थो वेष आत्मनपत् यहाय सुप्रजतस्तावयत्सैज ये तथने कौते प्रजायागुम सै ोपमेवास्यैतन्महिमानम् व्याजष्टे क्षीयमाणस्य निर्मपामिदेव जद्याय इत्याह आशुषमेवैतामाशास्य घृतम् च वैमसुज प्रजापजलासे पदः प्रजासुजला तरस्तान्मसुज प्रचलनमिवास्ते तरस्वान्मसुषा न प्रचलन्ति यातया आज्येन प्रचलन्ति यज्ञो वा आज्ञम् यज्ञेनैव यज्ञम् प्रचन्तया तया मत्त्वाय पत्न्यमेक्षते विषणत्वाय प्रजा पत्नी यज्ञस्य करोति विशनन्त अथो पत्न्या एव यज्ञस्यान्वारम्भो न मच्छति अमेध्यम् वा एतत्करोति यत्पत्न्यवेक्षते गार्घवत्येऽभिस्वेजिमेध्यत्वाय आहवनीयमभ्युद्रमते यज्ञस्य सन्दत्यै तेजोसुतेजो नुप्लेहेत्याह तेजोमा अग्निः तेजाज्यम् तेजशेव तेजः समर्थ्यते अग्निस्तेजेजोमापि नेदित्याहाहिकम् साधे यस्य वक्नम् साधयते यज्ञस्य सन्दत्यै अग्ने म्ने देवेभ्योले विदे भवेत्या आशिषमेवेतामाशास्ते तद्वादपवित्राभ्यामेवोऽनाति यजमानो वा आज्यम् प्राणापानो पवित्रेः यजमान एव प्राणापानो दधाति पुनराहारम् एवमिप्राणापानो सञ्चलतः शुक्रमस्योति रथि ज्योषेत्याह ोपमेवास्यैतन्मभिमानम् व्याचष्टेर्यजिहाः येषाम् लोकानामाप्तेः लोका प्रिया वृद्धेज्ञः अथो मेऽध्यत्वाय अथाज्यवतेभ्यामपः रूपमेवासामेतद्वर्णम् दधाति अपि वाुताहुः यथा हवै या सुबन्धकम् हिरण्यम् पेषदम् बिभ्रते रूपान्यास्तेः एवमेता एतलिहेते हा बोपे सर्वा देवदाः एश्वेदान् देवालान्धनोः यदाज्यम् तत्र अभयामीमामि स्यात् विषाद्यपवत्पुनीयात् छन्दसापवत्पुनात्विजामित्वाय अथोमिच्छत्वाय सावित्र्यच्च सवितप्रसूतम् मे कर्मा सति सविधर्मसूदमेवास्यकर्मभवने पच्छोकायत्रयाकृष्णमध्यत्वाय अभ्यते वोढधे सन्नहिते वोढधे षक्वशोन् अशुभर्यमानम् शुक्रन्ताशुक्रायाञ्च्योतिस्पराज्योतिशक्तिप्रात्ययेत्याहधर्मत्वाय दे पर्याहात्यानन्तरायाय देवासुराः संयत्ताः सन्मिन्द्रहाद्यस्यावकाशमपश्यत् तेनावैयेक्षत ततो देवाभवन् परासुराः एवम् विद्वानाज्यमपेक्षते भवत्यात्मनाः पराः स्यभ्यादुर्या भवते ब्रह्मवादिना वदन्ति राज्ये नान्यानि अवेगस्यभिधारयते अचलेनाद्य सर्तेन ब्रूया चक्षर्वे सत्यम् सर्तेनैवेन तभिधारयते ईश्वरो वा येषो गन्ध भवितो यश्चक्षुषाज्यमवेक्षते निमेल्यावेक्षेत धाधारात्मम् चक्षुः अभ्याज्यम् धारयति आद्यम् गृह्णाति छन्दागम् हिवाज्यम् छन्दागस्येव प्रीणादि चतुर्जुक्वान् गृह्णाति अष्टाक्षरा गायत्रे गायत्रः प्राणः प्राणमेव पशुर्दधादे रुद्रुवायाम् त्रशवः त्रेवपरिष्टात् प्रतिष्ठते यजमानदेवत्याेजुभोः भ्रातुर्यदेवत्योपभृजे चतुर्जुह्वान् ग्रह्णन् भूय गृह्णीयात् अष्टावपभृतिगृह्णम् गणीयः यजमानायैव भ्रातुर्यम् वस्तिम् करोति गौर्वैः तज्जिह्वान् गृह्णाति तस्माच्चतुष्पदे अष्टावुपभृ तस्मादष्टाशधायाः तस्माच्चतुस्तना गा मे मदत्सर्गस्करोदे सास्मै सर्गस्कृदे यमोर्जन्धे यज्जिह्वान् गृह्णाते प्रयाजभ्यस्तदे यदुपभृजे प्रयाजानो याजेभ्यस्तदे सर्वस्मै वा एतद्विज्ञायगृह्यते ्रुवायामाजम् आपो देवीरग्रेभ इत्याह रूपमेवादामेतन् हिमानम् जायष्टे अग्रयमञ यज्ञन्नयताग्रे यज्ञपतिमित्याह अग्र एव यज्ञन्नयन्ति अग्रे यज्ञपदिम् युष्मानिन्द्रवृणेतवृत्रतोर्ये यौजमिन्द्रमगे ध्वम् वृत्रतोर्य इत्याह वृत्रकम्भ्यन्निन्द्रापो वव्रे आपो हेन्द्रम् वव्रे साष्टे प्रोक्षिताेह तेनाव प्रोक्षिता अवेद्योलायतनस्पतेशत कृष्ण श्राष्टा स्वाहे अग्ने कौज अथवा अग्नेवेधम्झे वेदिन च बर्हिरे त्वा स्वाहेत्याः प्रजा वै बहिः पृथिवे वेदिः प्रजा एव पृथिव्याम् प्रतिष्ठापयते बर्हिरश्रुभ्यत्वा स्वाहेत्याः प्रजा वै बर्हिः यजमानस्रुजः यजमानमेव प्रजासु प्रतिष्ठापयते द्वे त्वान्तरिक्षायत्वा पृथिव्यैत्रे च बर्हिरासाद्यप्रोक्षते एभ्य एवैनम् लोकेऽभ्यप्रोक्षते स्ताः प्रत्यन्तम् ग्रन्थ्यम् प्रत्यक्षते प्रजा वै बहिः यथा सौक्ते कालाः पुरस्ताद्यन्ते तादृगे वदते सुधा विदध्यगित्याः सुधाकालाभितनाम् ओर्ध्वपरिगिभगिक्षिणागेश्वरस्य निर्णयसन्दत्यै मासा वै वितलापरिविटनः मासानेमत्रीनादे मासावाटशे वर्धयन्ते मासाः पचन्दिमृध्ये अनजस्कन्दयः वर्जन्या वर्णते एते ओर्जाथिवेक्षतेत्याह पृथिव्यामेवोर्जन् दधाते तस्मात् पृथिव्यावोर्जा भुञ्जते ग्रन्थ्यम् विस्तृगम् दयदे प्रजनेऽत्रे भजते ओर्ध्वम् प्राञ्चमुद्गूढम् प्रत्यम् चमायच्छति तस्मात् प्राचेनकम् प्रतीजै प्रजायन्तेष्णास्तोपवसेत्याह यज्ञा वै विष्णः यज्ञस्य चैः पुरस्थराः पुरस्तरम् गृह्णाति मुख्यमेवैरम् करोति यन्तम् ग्रह्णाति प्रजापजना यज्ञमुखेण संवितम् यन्तम् ग्रन्हादे यज्ञपुरुषा संवितम् यन्तम् गृह्णादे एतावद्वे पुरुषवीर्यम् वेर्यसंवितम् अवरिमिदम् गृह्णाते अवनिमितस्यावरुद्धे तस्मिन् पवित्रे अपि सृजति प्रस्तरः प्राणापानो पवित्रे हिमानगेव प्राणापानो दधाति ओर्णाहम् प्रसन्त्वा स्तृणामेत्याह युदेवेतत् श्वासस्थम् देवेऽभ्य इत्याह देवेऽभ्यदेवैतत्स्वासस्थम् करोति बर्हि दे, स्तृणाते प्रजा पृथिवी वेदे प्रजा एव पृथिव्याम् प्रतिष्ठापयते अनदृष्टग्यस्तनादे प्रथयेन पशुभिरणदृष्टम् करोति धारयन् प्रस्तरम् परिधेन्वरिदधाति पर यजमानो वय प्रस्तरः यजमान एव तत् स्वयम् परिधेन्वरिदधाते पर तम् सर्वोचविश्वावसरित्याह विश्वमेवायजमाने दधादे इन्द्रस्य बाहुसिलक्षिण इत्याह इन्द्रियमेव यजमाने दधादे मिद्रर्णोत्थोत्तर परधत्तावेवास्ंद सौस्ता पुरस्ता कस्यापरिताइनम पादे बीजाक अग्निवत्रेण समझते जिमंत्र महेत्या सध्ये अज्ञा बृहन्तमधरैत्याह वृद्धेः विषोयन्त्रे स्थैत्याः विषाञत्यैः उपेचीनाः अग्रे निर्धारिप्रतिष्ठित्यै असो नागम् वृद्राणामादित्या नागम् देवतानामेव जुहोरीनाम् नेत्याह असौ रे जुहोः अन्तरिक्षमपुलेध्वा सामेतदेव प्रियम् नाम यद्भिदादे यद्भिदायेत्याह प्रियदेवेनाम्ना सादेते एताः सदाम् सुकृतस्य लोकेत्याह सत्यम् वे सुकृतस्य लोकः सत्य एवैनाः सुकृतस्य लोके साधेते सा विष्णा बाहेत्याह वे विष्णुः यज्ञस्य श्रुते बाह्यज्ञम् बाह्य यज्ञवदिम् यत्मेफ्यसास्ते न आधुरानभ्यमान ब्रूहेअ्याभूको एक, एक, एक पुषा पुष्स्यम्या पुरुड़ पञ्चदशवार्धमासस्य रात्रयः अर्धमासः संवत्सराप्यदेधाति अनुयागेऽभ्यः समिधमधिषे षट्सम्पद्यन्ते षड्वादवः प्रेणादि ब्रेजेलोपवादे राजापत्यो वै वेदः राजापत्यप्राणः यजमानाः वनीयः प्रियमान एव प्राणम् दधाते त्रिरुपहारयते प्रयो वे प्राणाः प्राणानेवास्मिन् दधाते वेगेणत्रस्रुगेण दे, प्राजापत्यमाधारमाधारयते यज्ञो वे प्रजापतिः यज्ञमेव प्रजापतिम् सदारभते अथवा प्रजापतिः दे, सर्वा देवताः सर्वा एव देवता अग्निमग्ने संवृद्ध्येत्याह क्रियावृद्धिज्ञः अथो रक्षतापहद्ये वर्धेयन्सम्माेनास्तिः सम्मानाष्टे क्रियावृद्धिज्ञः अथो मे ध्यक्त्वाय अथोरे देवै देवाश्वाः देवाश्वानेव तत्सम्माहाष्टे स्वर्गस्य लोकस्य समजे आदेनान्यमाघारमाघारेण तिष्ठन् अन्यम् यथा नो वार्थम् वायुञ्ज्यात् एवमेव तदत्सर्गमिज्ञम् यनक्ते स्वर्गस्वरागस्याहन्तेन राम्याः पशवः यगेवम् वेदा भुवनमथविप्रथस्य यज्ञावे भुवनम् यज्ञ एव यजमानम् प्रजया वसुभिप्रसेदे अर्ज्ञयष्टरिदन्नमयित्याः अर्गर्वे तस्मादेव नमस्करोति जिह्े यज्ञस्त्वा प्वेतु यज्ञाया उपभतेदेव यज्ञायादित्याः आज्ञेयेवैजुः सा वित्रिप्यामेवै न प्रसोदादत् अज्ञाविष्णो मा वामनक्रमिणमित्याह अज्ञः पुरस्ताद् विष्णयज्ञः पश्चात् ताभ्यामेव प्रतिपुरात्या मासन्ताः तमित्याः लोकम् मे लोककृतो गुणधमित्याः आश्रितमेवेतामासात् कृष्णोस्थानभयेत्याः यज्ञा वे विष्णः एतत्क्षतवे देवानामपराजितमायतनम् एतेज्ञः देवानामेवापराजितः यतने तिष्ठते त इन्द्र अगुणाद्वेर्यानेत्याः इन्द्रियमेव यजमाने तथा समारभ्योऽर्ध्वाध्वरादिविश्वसमित्याः वृद्धेः आधारमाधार्यमाणमनुसमारभ्य एतस्मिन् काले देवास्वर्गम् दाकमायन् साक्षादेव यजमानस्तु वर्गम् दाकमेते अथवा समर्थेनैवेन यज्ञो यज्ञपदेत्याहान्स्वाहेत्याह इन्द्रियमेव यजमानेन धादि बृहद्भा इत्याह सुवर्गो वे लोको बृहद्भाः स्वर्गस्य लोकस्य समक्ष्ये यजमानदेवत्यावेजुः भ्रातुर्यदेवत्यापभृज प्राणाधारः यत्सर्गस्पर्शय भ्रातुर्यस्य प्राणन्दध्याय असर्गस्पर्शयन् सत्याक्रामदे यजमान एव प्राणन्दधादे पाहिमाः मे दुश्चरिता भय पवित्रम् सत्यगम् सुचरितम् अस्मादेवमात्मनाय शिरो एतदैज्ञस्य यदा धारः आत्मा ध्रुवा आधारमाधार्यध्रुवाकम् समनक्ष्ये आत्मन्नेव यज्ञस्य प्रतिदधाते दो हि प्राणापादौ तदािरे शिरयवेतद्दे प्राणाः प्राणानैवास्मिन् दधाते मरक्षिरोध्योतिषा ज्योतिरङ्गामित्याह ज्योतिरैवास्मा उपरिष्टाद्दधाते स्वर्गस्य लोकस्यानिख्याद्ये एते न्यप्यन्ते यद्ब्रह्मा यद्भवता यदध्वर्यः यदग्ने यद्विजमानः तानिरन्तरेयान् यजमानस्य प्राणान् सङ्कर्षेत् प्रमायुकस्यान् प्रोडादमप्रवृत्तिसञ्चरत्यध्वर्यः यजमाना एवम् लाव नास्य प्राणान् सङ्कर्षते न प्रमायुको भवति पुरस्ताः प्रत्यङ्गाशेन हस्त्याब्रह्मात्रे पशव वा इदाः पशवः पुरुषः पशुष्ट पशुवान् प्रतिष्ठापयते पिडायै वा एषा प्रजाते तान् प्रजाति यजमानान् प्रजायते पर्वणाः यतिष्ठत्यै सकृदवस्त्रिणादि निरादधादि सकदभिकारेदेसम्पद्यते सत्त्वारिवे पशुवप्रतिष्ठानानि यावानेव पशुः तमुपक्वयतेव प्रत्यपक्वयेत सम्मुखानेव पशोनुपक्वयते पशवमायिनाः तस्मात् सान्वारभ्याः च विजमाने चानीत्याह क्ये नयते होदाय देवतानामु भवेदपशुमान् भवति एवम् वेद याम् वेहस्यामिडा मातथादि वाजस्ताभाकथेयम् यामुपक्वयते प्राणानागुंसा वाजम् चैव प्राणाकष्टावरुन्धे अथवा एतदायामिडाया प्रोडासेव मे मागुंसा यजमानम् देवाब्रवन् भवन्नानिर्वचयते नाहमभागो निर्वक्ष्यामेत्य नमया न मया भागयानुवक्ष्यतेति भागब्रवेर नाहमभागा पुराणुभाक्या भविष्यामीति पुराणुभाक्याः नाहमभागायाज्या भविष्यामीति याज्ञाः न मया भागेन वषट्करक्ष्यते वषट्काः यद्यजमानभागम् निधाय पुराणादम् परिहृतम् करोति तानेव तद्भागिनः करोति तदस्वासः इक्षुेव प्रतिगच्छति बहिति विदमानावे पुरोपरिहे विदमानमेव प्रजासु प्रतिष्ठापयते तस्मादश्रान्या प्रजा प्रतिगच्छन्ते मांसेनान्याः अथवा कर्वासः दक्षिणा वा एताः श्रद्धा तत्त्वारोक्यक्विजः ब्रह्माहोदाध्वर्यलग्ने इदम् ब्रह्मणः इदम् होदः इदमध्वर्योः इदमग्ने सौम्ये आदेशपक्तिभ्यो दक्षिणा नीयन्ते आदे अग्नि अग्निमुखाह्यर्थिः अग्निमुखामेवर्थियमानरुत्नोदे सेर्यद्विरादशत्तेर्यद्भिरभिसारयते षट्सम्पद्यन्ते षड्वा ऋतवः ऋतो नैवत्रीनादे वेदेन ब्रह्मणे ब्रह्मभागम् परिहरे राजापत्यो वे वेदः राजावत्यो ब्रह्मा सविता यज्ञस्य ततो होत्रेः मध्यम् वा एतद्यज्ञस्य मध्यत एव यज्ञम् प्रीणादि अथाः ध्वर्यवेव स्रष्टा वा एता यज्ञस्य एतद्धर्यः तस्मायज्ञस्य एतामेवनो अन्यालक्षणानि युन्ते यज्ञ प्रदक्षते अगत्सकृेरी ये व्याोदारिर्म क्रियवाच् प्रेषिम सो सोक्ता ब्रोहे आयुषमे स्वालेव्यायाहोदर्भ यमे तत्वरो तस्कर्मानुषाभ्यैत्याः आशुषमेवेतामाधार्ब्रूहेत्याह संयमेव वागः पत्यम् वागधेयेन समर्थयते असस्तजावनष्टभ्याम् वाजवदेभ्याम् व्योहदे प्रतिष्ठावाहनष्टु अन्नम् वाजप्रतिष्ठत्य अन्नाद्यस्यावरुद्ध्ये राजेयम् जहो मोहदे प्रदेते मुभृदम्नानेव प्रतिनदते सोज एव भोक्यसपत्रान् यजमानः अस्मिन् लोके प्रतितिष्ठते त्वाभ्याष्ठो हिभ्यस्ताद्रेभ्यस्तादित्यभ्यस्तेत्याह यथा युप्रस्थामणक्ते इमे वे लोकाश्रुनः यजमानप्रस्तरः यजमानमेव ते यथा त्वयसाणक्ये त्रय लोकाः एभ्ययवेणम् लोकेभ्यनक्ते अभिपूर्वमनक्ते अभिपूर्वमेव यजमानम् तेजसाणक्ये अक्तगम् ऋणादित्याह तेजोवाहाज्यम् यजमानप्रस्तरः यजमानमेव तेजसानक्ये प्रियम् द्वयेत्याह प्रजयवेणम् धृत्वा गमयते प्रजाय्य निर्माणविवृक्षमित्याह प्रजाये द्वापेशाय आप्यायम् तामापवोषते नित्याः आपदे वोषतेराप्यायते मरुतामृषयश्चेत्याह मरुतो वृष्ट्यामीषदे वृष्टिमेवाबन्धे त्रिहङ्गक्षतदानावृष्टिमे रजेत्याह वृष्ट्यर्वये द्योः वृष्टिमेवाबन्धे यावद्वाध्वर्यप्रस्तरम् बृहदे तावदस्यायुर्मीयते आयुष्पेयुर्मे वाहे आयुरेवात्मंधत्ध प्रस्तरा चक्षुष्हाक्षुर्मे बाहे चक्षुरेन्धत् ध्रुवादे प्रतिष्ठि यहां इह अग्नेः एवेन अन्यस्तम् करोति परन्तजेतमनजोषम् भरामे इत्याह सजाता नेवा श्वानुगानम् करोति यज्ञस्य पासौ प्रसमितमित्याह भूमानमेवोपैदे वर्धेयन् प्रहरते यज्ञस्य समिष्ये सुप्रस्रावयते तदेव तत्र क्लूरम् अर्पेण समयते ेवत्या वेजुहोः भाद्रिमदेवत्याजमाना एव प्राथम्यपस्तिम् करोति सर्गस्रावभागाश्चेत्याे रुद्रः इत्याः सर्गश्रावभागाः एका दद्भागेयम् नेपदेन प्रेणादे वैश्वर्चाः दे एते देवाः दे पृष्टर्भवति दे। इंद्रि वै तृष्ट इंद्रियमेजमाने अनेरग चादयामी अग्निपन्नग्रह अस्या सुन्नाशुनिनेजाए पशव सुन्नमे पशुनात्मन धुपादया अग्नेदब्धाय शेतदमादित्याः यथा येदेव पाहि माज्ञाहि प्रसिद्धे पाहिदृष्टे पाहिदस्यदित्याः पाहिदमेवेदामाशास्य अभिरङ्गभ्यासाय फलीकरणहो मञ्जुहा अतिरिक्तानि वायुर्वलम् वृश्चलानि अतिरिक्ताः फलीकरणाः अतिरिक्तमाद्योच्छम् अतिरिक्त एवादिरिक्तम् दधादि असो अतिरिक्तेवादिक्तमा वृन्धे वेदद्देवेभ्यो निजायम् वेदेन्दन् वेदेन वेदर्विध पृथिवी सावपृथे पृथिवेर्थिवाने गर्भम् भवतः प्रजापदेश्रूणि यद्वेदः पत्र्यापस्थास्य प्रजा वेदगुम्भोताः वनीयाः न्तनात्योत्तरस्मादधमासात्सन्तनमुत्तरे अर्थमासा लभते कालागजे विगते ब्रह्मवादिना वदन्ते साहध्वैर्यस्याः च योक्यम् प्रयुङ्क अधयनम् दे। प्रतिष्ठापयते माता द्वाधर्यलेक्यम् बात प्रयुङ्क्लविदा दे। कालम् वित्त्वा कालमिदेत्याः यदेव्यम् प्रयुङ्क ष्ठापयते प्रतिष्ठदयानः यो वा यथा देवतम् यज्ञमुपचर्ये आ देवताभ्यावृष्टते पापीयान्भवते यो यथा देवदम् न देवताभ्यावृष्टते वधीयान्भवते वारुणो वैवादः इमम् विश्यामवर्णस्य वाचमित्याह वरुणवादादेवैना देवनम् ेवतान् भवते धातुश्च जानो सुखलस्य रागेत्याह अग्रलवैधाता पुण्यकर्मसुखदस्य रागः अग्ररेवैनाम् धाता पुण्यकर्मणि सुखदस्य लोकेन धाते श्रवणम् मे सहपत्या करोमीत्याह आशुरमेवेता पूर्णपात्रेष्टुभान्धः प्रतिष्ठितम् वर्तिने पूर्णपात्रे भवति अस्मिन् लोके प्रतिष्ठाने अस्मिन्नेव लोके प्रतिष्ठते अथवा प्रजननम् एतस्मात् ते मिथुना विद्योतमानस्तनयन्वरिषते एतश्चिञ्चन् प्रजाप्रजयन् यद्वे यज्ञस्य ब्रह्मणा युज्यते ब्रह्मणा वेतस्य विमोकः अभिः शान्तिः विमुक्तम् वा एतम् ब्रह्मणा आधारेणे ते शान्त्यै अनुजलोपोहर्णपात्रमानेतके प्रजयादिमनुष्यः पूर्णः मुखम् विवृष्टे आवृदस्यैव लोकम् कृत्वा तिष्ठते वा एषवनस्पदीनाम् उपवेशः देवा मनुष्येषु उपवेशमधारयन् हे अस्मदपदेततः तानस्मभ्यविहाकरो उपवेशोपविद्धिनः प्रजामृत्यवशोधनम् द्विपदा नश्च ध्रुवान्पगान् कुर्वत्य तस्मात् पुरस्तात् प्रत्यन्तश्रोद्रान्ति उपवेशः ब्रह्मनाथगुंसिदः योपवेशेषु सः मनुक्षदिकम् दृष्मोकरः अवत्नाय प्रतन्यते निर्पाध्येन हविषाः इन्द्रेण तिस्रः परावदः तिस्राजराजना यावत् सौर्यादध्यदे परमान्तापरामदम् इन्द्राणे पुत्राः पुनरायतेभ्यस्तनाः ब्रह्मणागम् एवैनम् विद्ध्वा लोकेभ्यो निर्मद्य वज्रेण ब्रह्मश्रम चिष्टाम्यश्रित्यये क्रन्ध्याय सुजैवेन अर्पयते ओ